हरि ओम् श्रीसीतारामचन्द्रभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे भोज्याकाण्डे त्रयस्मिन् च सर्गः सीतालक्ष्मण सहितस्य श्रीरामस्य दुःखमग्नपौरजना मुखेभ्यो विविधा वार्ता श्रावं श्रावम् पितुर्दर्शनार्थं कैकेय्या भवनै गमनम् दत्त्वा तु सह वैदेह ब्राह्मणेभ्यो धनं बहु जग्मतु पितरं द्रष्टुम् प्रीतया सह ततो गृहीते प्रेषाभ्याम् अशोभे तां तदा युधे मालादामाभिरासक्ते प्रीतया समलङ्कृते ततः प्रासादहर्म्याणि विमानशिखराणि च अभिरुह्य जन श्रीमान् उदासीनो विलोकयत् न हि रथ्या शु शक्यन्ते गन्तुम् बहुजना कुलः अरुह्य तस्मात् प्रासादात् दीना पश्यन्ति राघवम् पदातिम् सानुजम् दृष्ट्वा स शीतम् च ददास उचिर्बहुजनावाच अनुयाति स्म चतुरङ्गलम्बत् सीतया साधम् स्म लक्ष्मणः ऐश्वर्यस्य सन्यस्थन् कामानां चाकुमहन् निश्चते वाचनं धर्मगौरवत् यानशक्याः पुरा द्रष्टुम् भूतैः काशगैरपि तम् अद्य सीतां पश्यन्ति राजमार्गः अङ्गरागोचिताम् सीताम् रक्तचन्दनसेविनीम् वर्षम् उष्णम् च शीतम् च नैष्यत्याशु विवर्णताम् अद्य नूनम् दशरथः सप्तम् आवेश्य भाषते न हि राजा प्रियम् पुत्रम् विवासयितु महति निर्गुणस्यापि पुत्रस्य कथम् किम् पुनर्यस्य लोकोऽयम् जितो वृत्तेन केवलम् आन्द्रुशन्त्यम् अनुक्रोश कृतम् शीलम् दमः शमः राघवम् चोभयन्त्येते षड्गुणः पुरुषस्य भयम् तस्मात् तस्योपघातेन प्रयापरमपीडितः औदकानिव सत्त्वानि पीडय पीडितम् सर्वम् जगदस्य जगत्पतेः उपघातेन वृक्ष पुष्प फलोपगः मूलं घ्येष मनुष्याणाम् धर्मसारो महाद्युतिः पुष्पम् फलञ्च पत्रम् च शाकाचास्येतरे जनाः ते लक्ष्मण इव क्षिप्रम् स पत्न्या स बान्धवः गच्छन्तम् अनुगच्छामो येन गच्छति राघवे उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च एकदुःख सुखरामम् अनुगच्छापधार्मिकम् उद्यानानि परित्यज क्षेत्राणि च गृहाणि च एकदुःख सुखारामम् अनुगच्छामधार्मिकम् परि ध्वस्ताजिराणि उपात्य उपात्त धन धान्यानि धृतसाराणि सर्वशः रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः मूषकैः परिधावद्भिः उद्बिलै आवृतानि च अपेतोदकधूर्माणि हीनसम्मार्जनानि च प्रणष्ट मन्त्र होमजपानि दुष्काले नैव भग्नानि भिन्न नवन्ति च अस्मत्त्यक्तानि कैकेयी भीष्मानि प्रतिपद्यताम् वनम् नगरम् एवासु येन गच्छति राघव अस्माभिश्च परित्यक्तम् पुरम् सम्पद्यताम् वनम् बिलानि दर्शिणः सर्वे स नूनि त्यजन्तस्मन् भयासि भीता गजा सिंह वनान्यपि अस्मत्यक्तं प्रबध्यन्तु सेव्यमानं त्यजन्तु च तृणमास फलदानं देशं व्याल मृगाद्विजम् प्रपद्यताम् हीरा कैकेयी सपुत्रा स बान्धवै सर्वे वने वत्या मनिर्वृता इत्येवम् विविधा वाचो नानाज न ना समीरिता शुश्रावरागव श्रुत्वा न विचक्रे समानसम् स तु वेश्म पुनर्मातु कैत कैलास शिखरप्रभम् अभि चक्रामधर्मात्मा मत्तमातङ्गविक्रमः विनीत वीरपुरुषम् प्रविश्य तु नृपालयम् ददर्शावस्थितम् दीनम् सुमन्त्रम् अविदूरतः प्रत्यक्षमाणो विजनम् ददातम् अनाथरूप प्रसन् निवथ जगाम रामा पितरम् दिदृक्षु पितुर्निदेशम् विविधचिकेषु तत्पूर्वम् ऐक्ष्वाकसुतो महात्मा रामो गमी प्रतिष्ठत प्रेक्षत दासु मन्त्रम् पितुर्महात्मना प्रत्यहरणार्थम् पितुर्निदेशेन तु धर्मवत्सलो वन प्रवेशे कृतबुद्धि निश्चय स्वराघव प्रेक्षसु मन्त्रमब्रवीन् निवेदय स्वागमनम् नृपाय मे इत्याशि श्रीमन् श्री सा रामचन्द्रार्पणमस्तु